अथ चतुरधिकशततमोऽध्यायः भीष्म उवाच पुनर्भरतवंशस्य हेतुम् सन्ता न वृद्धये वक्ष्यामि मातस्तन्मे निगदतशृणो ब्राह्मणो गुणवान् कश्चिद्धनेनोपनिमन्त्र्यताम् विचित्रवीर्यक्षेत्रेषु यः समुत्पादयेत् प्रजाः वैशम्पायन उवाच ततः सत्यवति भीष्मम् वाचा वचनमब्रवीत् सत्यमे यथावदसि भारत विश्वासा ते प्रवक्ष्यामि सन्तानाय कुलस्य नः न ते शक्यमनाख्यातुम् आपद्धर्म तथाविधम् त्वमेव नः कुले धर्मः त्वम् सत्यम् त्वम् परा गतिः मे कुरुष्व यदनन्तरम् यस्तु राजावचुर्नामा श्रुतस्ते भरतर्षभा तस्य शुक्रादहम् मत्स्या धृता कुक्षौ पुरा दाशः परमधर्मवित् मां तु स्वगृहमानीया धर्मयुक्तस्य धर्मार्थं पितुरासी पितुरासीत्तरी मम कदाचिदहम् तत्र गता प्रथम अथ धर्मविदाम् श्रेष्ठः परमश्रिः पराशरः आजगामतरीम् धीमां तरिष्यन् यमुनाम् नदीम् स तार्यमाणो यमुनाम् मामुपेत्याब्रवीतदा सान्त्वपूर्वम् मुनिः श्रेष्ठः कामार्तो वचः उक्तम् जन्म मह्यमस्मि दाश सुतेत्यहम् तमहंशाप च पितुर्भीता च भारत वरैरसूल भैरता न प्रयाख्यात्सु अभूय सामं बालां तेजस वश्नत तमसा लोकमावृत् नई गता भारत मत् गसीतरा मम जुगुप्स तम पास शुभम गंध ममं प्रादा स मे मुनिमाह स मुने गर्भ मुत्सृज्य मतक सैव सरी कन्म भविष्य न्या पुत्रो मम पुरा द्वैपायन इति श्रुतः यो व्यस्य वेदांश्चतुरः तपसा भगवान् ऋषिः लोके व्यासत्वमापेदे काश्म्या कृष्णत्वमेव च सत्यवादीशमपरः तपस्वी दग्धकिर्बिषः समुत्पन्नः स महान् सः पित्रा ततो मया व्यक्तम् त्वया चाप्रतिमद्युतिः धातुः क्षेत्रेषु कल्याणमपत्यम् जनयिष्यति महि मामुक्तवांस्तत्र स्मरेः कृच्छेषु मामिति तम् स्मरिष्ये महाबाहो यदि भीष्मत्वमिच्छसि त्वमिच्छसि बवह्यनुमते भीष्मा नियतम् स महातपाः विचित्र वीर्य क्षेत्रेषु महर्षेः कीर्तने तस्या भीष्मः प्राञ्जलिरब्रवीत् धर्ममर्थम् च कामञ्च त्रीनेतान्योऽनुपश्यति अर्थमर्थानुबन्धं च धर्मम् धर्मानुबन्धनम् कामम् कामानुबन्धम् च विपरीतान् पृथक् पृथक् यो विचिन्त्यधिया धीरो व्यवस्यति स तदिदम् धर्म युक्तम् च चैव कुलस्य नः उक्तम् भवत्या यच्छ्रेयः तन्मह्यम् रोचते भृशम् एषम्पायन उवाच ततस्तस्मिन् प्रति ज्ञातो भीष्मेण कुरु नन्दन कृष्ण द्वैपायनम् काली चिन्तयामास मातुर्विज्ञाय चिन्तितम् प्रादुर्बभूव विदितः क्षणेन कुरु तस्मै पूजाम् ततः कृत्वा सुताय विधिपूर्वकम् परिष्वद्य च बाहुभ्याम् प्रसवैरभ्यषिञ्चत ममो च बाष्पम् दाशेयी पुत्रम् दृष्ट्वा चिरस्य तु मद्भिः महर्षिर विवाद्य च मातरम् पूर्वजः पुत्रो व्यासो वचनमब्रवीत् भवत्या यदभिप्रेतम् तदहम् कर्तुमागतः साधि माम् धर्म तत्त्वज्ञे करवाणि प्रियम् तव तस्मै पुरोधाः परमर्शये स च ताम् पूजितो मन्त्रपूर्वन्तु विधिवत् प्रीतिमापसः तमासनगतम् माता पृष्ट्वा कुशलमव्ययम् सत्यवत्यथ वीक्षयिनम् उवाचेदमनन्तरम् मातापित्रोः प्रजायन्ते पुत्राः साधारणाः कवे तेषाम् पिता यथा स्वामी तथा माता न संशयः विधान विहितः सत्यम् यथा मे प्रथमः सुतः विचित्रवीर्योगम् तथा मे वरजः यथैव पितृतो भीष्मस्तथा त्वमपि मातृतः भ्रात्रा विचित्र यथा वा पुत्र अयम् शान्तनवः सत्यम् पालयन् सत्यविक्रमः बुद्धिम् न कुरुते पत्ये तथा राज्यानुशासने सत्त्वम् व्यपेक्षया भ्रातुः सन्तानाय कुलस्य च चा। भीष्मस्य चास्य वचनान्नियोगा च चा ममानघा अनुक्रोशाच्च भूतानाम् सर्वेषाम् रक्षणाय च आनुशंस्याच्च यद्ब्रूयाम् तच्छ्रुत्वा कर्तुमर्हसि यवीयसस्तव भ्रातुर्भार्ये सुरसुतोपमे रूपयौ वनसम्पन्ने पुत्रकामे च धर्मतः तयोरुत्पादयापत्यम् समर्थो ह्यसि पुत्रक अनुरूपम् कुलस्यास्य सन्तत्याः प्रसवस्य च व्यास उवाच वेथ धर्म सत्यवति परञ्चापरमेव च यथा तव महाप्राज्ञे धर्मे प्राणिहितामतिः तस्मादहम् त्वन्नियोगाद्धर्ममुद्दिश्य कारणम् ईप्सितम् ते करिष्यामि दृष्टम् ह्येतत् सनातनम् भ्रातुः पुत्रान् प्रदास्यामि मित्रावरुणयोसमान् संवत्सरम् यथा न्यायम् ततः शुद्धे भविष्यतः न हि मामव्रतोपेता उपेया काचिदङ्गना सद्यो यथा प्रपद्येते दिव्यौगर्भम् तथा कुरु अराजकेषु राष्ट्रेषु प्रजानाथा विनश्यति नश्यन्ति च क्रियाः सर्वा नास्ति वृष्टिर्न देवता कथञ्चाजकम् राष्ट्रम् शक्यम् धारयितुम् प्रभो तस्माद्गर्भम् समाधत्स्व भीष्मः संवर्धयिष्यति व्यास उवाच यदि पुत्रः प्रदातव्यो मया भ्रातुरकालिकः विरूपताम् मे सहताम् तयोरेतत्परम् व्रतम् यदि मे सहते गन्धम् रूपम् वेषम् तथा वपुः अद्यैव गर्भम् कौसल्या विशिष्ट्यम् प्रतिपद्यताम् वैशम्पाय न उवाच एवमुक्त्वा महातेजा व्यासः सत्यवतीम् तदा शयने सा च कौसल्या शुचिवस्त्रा ह्यलङ्कृता मा गमनमाकाङ्क्षे दिति सोऽन्तर्हितो मुनिः ततोऽभिगम्य स देवि स्नुषाम् कौसल्ये धर्मतन्त्रम् त्वाम् यद्ब्रवीमि निबोधतत् रताछेदो व्यक्तम मद्भाग्य संशया व्यथितांश स्रेक्ष्य पितृवंशंपीडित भीष्मिद मह्यम कुल विवृद्ध साय्यधीना पुत्री प्रापय मंतः नष्ट भारत वंशं पुनरवर पुत्र जनय शु्रोणी देवराज सम प्रभिराजधुर गुर्वी मुद्वक्ष्यति कुल सा धर्म तो नुनीयीना कथंचित धर्मचारिणी भोजयामास विप्राश देश शीन नथीं तथा श्री महाभारते आदि पर्व संभव पर्व सत्यवपदेशत तमोध्याय